एकादशोऽध्यायः ध्यानम् ॐ बालारविद्युतिमिन्दुकिरीताम् तुङ्गक्कुचां नयनत्रयुक्ताम् मेरमुखिं वरदाङ्कुशपाशाम् वीचकराम् प्रवजे भुवनेशिम् ॐ ऋषिवात् देव्या हते तत्र महासुरेन्द्रि चेन्द्राचुरावह्नि पुरोगमास्तां कात्यायनिं तुष्टबुरेश्च लाभां विकासि वक्त्राब्जविकासितासां देवी प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य प्रसीद विश्वेश्वरिपाजिविश्वम् त्वमीश्वरी दैविचराचरस्य आधारभूता जगतस्तमेका महीश्वरूपेण यतस्थितासि अपां स्वरूपस्थितया त्वयैत आज्ञायते कृष्णवलङ्घविर्ये तं वैष्णवीशक्तिरनन्तवीर्याम् विश्वस्य बीजं परमाशि मायां सम्मोषितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्ति तु विद्या समस्तास्तभदेविभेदां श्रियसमस्ता समस्ता सकला जगत्सु त्वयैकया पूरितमम्बयैत का ते स्तुति सर्व्यपरापरोक्ति सर्वभूताय यदा देवी स्वर्गमुक्तिप्रदायिनी संस्तुतास्तुतये का वां भवन्तु परमोक्तयः सर्वस्य बुद्धिरूपेण जनस्य स्थितिसंस्थिते स्वर्गापवर्गदे देवी नारायणी नमोस्तु दे कालाकाष्ठादिरूपेण परिणामप्रलायिनी विश्वस्य परतौ शक्ते नारायणी नमोस्तु दै सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसासिके शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तु दै सृष्टिस्थितिविनाशानां शक्तिभूते सनातनी गुणाश्रये गुणमये नारायणी नमोस्तु ते शरणागतनीत परित्राणपरायणे सर्वस्यार्थ हरे देवी नारायणे नमोस्तु ते हंसयुक्तविमानस्थे ब्रह्माडे रूपधारिणी कोशाम्भरिके देवी नारायणी नमोस्तु ते त्रिशूलचन्द्राहिधरे महावृषभवाहिनी माहेश्वरीस्वरूपेण नारायणे नमोस्तु ते मयूरकुक्कुटवृते महाशक्तिधरे नघे कौमारीरूपसंस्थाने नारायणी नमोस्तु ते शङ्खचक्रगदाशार्ग गृहीतपरमायुधे प्रसीदवैष्णवीरूपे नारायणी नमोस्तु ते गृहीतोग्रमः चक्रे द्रष्ट्रोज्झितवसुन्धरे वराहरूपिणी शिवे नारायणी नमोस्तु ते नृसिंहरूपेण उग्रेण हन्तुं दैत्यान् कृतोद्यमीन् त्रैलोक्यत्राणसहिते नारायणी नमोस्तु ते किरीटिणि महाभद्रे सहस्रनयोज्ज्वले वृत्तप्राणहरिश्चेन्द्रे नारायणी नमोस्तु ते शिवदूतीस्वरूपेण हत दैत्यमहाबले घोररूपे महारावे नारायणी नमोस्तु ते द्रष्ट्राकरालवदने शिरोमालाविभूषणे चामुण्डे मुण्डमथने नारायणे नमोस्तु ते लक्ष्मी लब्जे महाविद्ये श्रद्धे पुष्टिष्वधे ध्रुवे महारात्रि महाविद्ये नारायणे नमोस्तुते मेधे सरस्वतिवरे भूते वा भ्रवितामसि नियते त्वं प्रसीदेशे नारायणे नमोस्तुते सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भेभ्यस्त्राहिनो देवी दुर्गे देवी नमो स्तुते एतत्ते वचनं सौम्यम् लोचनत्रयभूषितं पातु न सर्वभीतेभ्य कात्यायनी नमोस्तुते ज्वालाकरालमत्युग्रमशेषासुरसूदनम् त्रिशूलं पातु नो भीतेर्भद्रकाली नमो सुते हीनस्ति दैत्यतेजांसि स्वनिना प्रियया जगन् देवी पापेभ्यो न सुतानिव असुरासिंहशापङ्क चर्चितस्ते करोज्ज्वलः शुभाय खड्गो भवतु चण्डिके त्वां न ता वयम् रोगानशेषानपहंसुतुष्टा हृष्टा तु कामान् सकलानभीष्टान् त्वामाश्रितानां न विपन्नराणाम् स्वामाश्रिताशाश्रयतां प्रयान्ति एतत् कृतं तयाद्य धर्मद्विषां देवि महाशुराणां रूपै अनेकै बहुधात्ममूर्तिं कृत्वाम्बिके तत्प्रकरोति कान्यां विद्यासु शास्त्रेषु विवेकदीपे स्वाद्येषु वाक्येषु चकात्वदन्याम् मम त्वगरतीति महान्धकारे विभ्रामयत्येतदतीव विश्वं रक्षांसि यत्रोग्रविशाश्च नागां यत्रारयोदस्यु बलानि यत्र दावानलो यत्र तथाब्धिमध्ये तत्र सिता त्वं परिपाश विश्वं विश्वेश्वरि त्वं परिपाश विश्वम् विश्वात्मिकाधारयतिशीति विश्वं विश्वे सवन्द्या भवती भवन्ति विश्वाश्रयायै वैभक्तिनम्रां देवी प्रसीदपरिपालयनोरभीति नित्यं यथा सुरवधा तदुनैव सद्य पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनिताश्च महोपसर्गान् प्रणतानां प्रसीदत्वं देवि विश्वार्तिहारिणि त्रैलोक्यवासिना विद्ये लोकानां वरदा भव देव्युवाच वरदाहं जगतामुपकारकम् देवा उचुः सर्वा बाधाप्रशमनम् त्रैलोक्यस्याखलीश्वरी एवमेव त्वया कार्यम् अस्मद्वैर्विनाशनम् देवीवाच वैवस्वन्ते तर्प्राप्ते अष्टाविंशतिमे युगे शुम्भो निशुम्भश्चैवान्यौ उत्पस्येते महाशिरो नन्दगोपविहे जाता यशोदागर्भसम्भवा ततस्थौ नाशयिष्यामि विन्ध्याचलनिवासिनीं पुनरप्यतिरोद्रेण रूपेण पृथिवीतले अवतीर्यहनिष्यामि वै प्रचित्तां भक्षयन्त्यास्थितानुग्रान् वैप्रसिद्धान् महासुरान् रक्तादन्ता भविष्यन्ति लाड्मीकुसुमोपमाः ततो मां देवता स्वर्गे भर्त्यलोके च मानवाः चुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकां भूयश्च शतवार्सिक्याम् अनावृष्ट्यामनाम्भे मुनि संस्कृता भूमौ सम्भविष्याम्ययोनिजा ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनिन् कीर्तयिष्यन्ति मनुजाः सताक्षीमिति मां ततः ततोऽहम् अखिलं लोकम् आत्मदेहसमुद्भवै भविष्यामीश्वराशाकै आवृष्टि प्राणधारकै शाकम्भरीति विख्यातिम् तदा यस्याम्यहम् भुवि तत्रैव च वधिष्यामि दुर्गमाख्यम् महासुरम् दुर्गादेवीति विख्यातम् नाम भविष्यति पुनश्चाहम् यदा भीमम् रूपम् कृत्वा हिमाचले रक्षां स भक्षयिष्यामि मुनिनां त्राणकारणां तदा मां मुनिय सर्वे स्तोष्यन्त्यानम्रमूर्तयः भीमादेवीति विख्यातं तन्मे नाम भविष्यति यदा रुणाख्यस्त्रैलोके महाबाधां करिष्यति तदाहं भ्रामरं रूपम् कृत्वा शङ्खेयषड्पदं त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् भ्रामरीति च मां सर्वतः इत्थं यदा यदा बाधा दानवोद्धा भविष्यति तदा तदावतिर्याहं करिष्याम्यदि सञ्चयम् ॐ श्रीमारुकुण्डे पुराणे श्रावणिके मन्वन्तरे देवी महात्म्ये देव्यास्तुतिर्नाम ॐ श्रीदुर्गायै नमः